अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः अपास्य चास्य यन्तारं दारुकं यन्त्रसत्तमम् अभीषून् सम्प्रजग्राह स्वयं कुरुपतिस्तदा उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् रुक्मदण्डम् बृहद्बाहुर्विदुधावप्रदक्षिणम् तथैव भीमसेनोऽपि यमाभ्यां सहितो बली पृष्ठतोऽनुययौ कृष्णम् मृत्विक् पौरजनैः सह छत्रम् शतशलाकं च दिव्यमाल्योपशोभितं वैडूर्यमणिदण्डं च चामीकरविभूषितं दधारतरसा भीमश्छत्रं तच्छार्ङ्गधन्वने शीघ्रं चामरव्यजने न कुलः सहदेवश्च धूयमानौ जनार्दनम् स तथा भ्रातृभिः सर्वैः केशवः परवीरः अन्वीयमानः युधिष्ठिम पूजय भीमसेम तथा परिश्वक्तो भ्रशं तैस्तो यमिवादि योजनार्थमथो गत्वा कृष्णः परपुरञ्जयः युधिष्ठिरम् समामन्त्र्या निवर्तस्वेति भारत ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवेत् उत्थाप्य धर्मराजस्तु मूर्ध्ुपाघ्राय केशवम् पाण्डवो यादव कृष्णं कृष्णम् कमललोचनम् गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः ततस्तैः संविदम् कृत्वा यथावन्मधुसूदनः निवर्त्य च तथा कृच्छ्रात् पाण्डवान् सपदानुगान् स्वां पुरीं प्रययौ हृष्टो यथा शक्रो मरावतीं लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् अतृप्तमनसामेव तेषां केशवदर्शने क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः अकामायेव पार्थास्ते गोविन्दगतमानसाः